नूनम् ते भ्रातरः सर्वे त्वत्कथाभिप्रजागरे रंस्यन्ते वीरकर्माणि कथयन्तः पुनः पुनः नैव नः पार्थभोगेषु न धनेनोत जीविते तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि त्वयि नः पार्थ सर्वेषाम् सुखदुःखे समाहिते जीवितम् मरणम् चैव राज्यमैश्वर्यमेव आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि भारत बलवद्भिर्विरुद्धम् न कार्यमेतत्त्वया नघ प्रयाह्यविघ्नेनैवाशु विजयाय महाबला नमोधात्रे धात्रे विधात्रे च स्वस्ति गच्छय नामयम् श्री श्रीकीर्तिर्द्युतिः सरस्वती इमा वैतव पान्थस्य पालयन्तु धनञ्जया ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः प्रपद्येऽहं वसून् रुद्रानादित्यान् समरुद्गणान्